मंस्तवम् देववरस्य यो नरः छुचिसुमनास्समाहितः विमुच्यते शोकदवाग्निसागराल्लभेत कामान् वैशंपायन यथेप्सितान् उवाच एवमुक्तस्तु धौम्येन तत्कालसदृशम् वचः विप्रत्यागसमाधिस्थः सय्यतात्मा दृढव्रतः धर्मराजो विशुद्धात्प आतिदुतमोपहारेबलिरर्चयिदिवाकर सोवगाह्यजल राज देविमुखो योगय धर्माुक्षो जिते गाङ्गेयौ वार्युपस्पृश्य प्राणायामेन तस्थिवान् शुचिः प्रयतवाग्भूत्वा स्तोत्रमारब्धवांस्ततः युधिष्ठिर उवाच त्वम् भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् त्वञ योनिःसर्वभूतानाम् त्वमाचारः क्रियावताम् त्वम् गतिः सर्वसाङ्ख्यानाम् योगिनाम् त्वम् परायणम् अनावृतार्गलद्वारम् त्वम् गतिस्त्वम् मुमुक्षताम् त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते त्वया पवित्रीक्रियते निर्व्याजम् पाल्यते त्वया स्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः स्वशाखाविहितैर्मन्त्रैरर्चम् तृषिगणार्चितम् तव दिव्यम् रथञ्यान्तमनुयान्ति वरार्थिनः सिद्धचारणगन्धर्वायक्षगुह्यकपन्नगाः